श्रीहरये नमः अथ षोटसोऽध्यायः मैत्रेय उवाच इति ब्रुभाणं नृपतिं गायका मुनिचोदिताः तुष्टुवुस्तुष्टमनसहद्वाकमृतसेवया नालम्बयते महिमानुवर्णने यो देववर्योऽवत तारमायया वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनाम् अपि भद्रमुर्दियः कलावतारस्य कथामृधा धृताः यथोपदेशं मुनिभिः प्रचोदिता श्लाघ्यानि कर्माणि वयं वितन्मही एष धर्मभृतां श्रेष्ठो लोकं धर्मेणो वर्तयन् गोप्ता च धर्मसेतूनां सास्ता तत्परिपङ्क्तिनां एष वै लोकपालानां आले काले यथा भागं लोगयो उभयोर्हितं वसुकाल उपाधत्ते काले चाय विमुञ्चति समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः तितिक्षद्यक्रमं वैन्यम् उपर्याक्रमतामभि भूतानां करुणः शश्वत् आर्तानां क्षितिवृत्तिमान् देवे वर्षत्यसौ सौधेवो नरधेव वपुर्हरिः कृच्छ्रप्राणा प्रजाह्येष रशिष्यति अञ्जसा इन्द्रव्रत् आप्याययत्यसौ लोकं वतनामृतमूर्तिनां विसदस्मितचारुणा अव्यक्तवर्तमैष निकूढगार्यो गम्भीरवेदा उपगुप्तवित्तः अनन्तमाखात्म्यगुणैकधा मा पृथुप्रचेता इव संवृतात्मा धूरासधो दुर्विशः आसन्नोऽपि नईवाभव शक्यो वे नुत्थि नल अतर्बकूता पश्य कर्मा चारण उसीनिवाध्यक्षो वायुरात्व वदेहिनां, दण्ढ्यं दण्डयत्येष सुतम् आत्मद्विषामपि दण्डयति आत्मजबी दण्ढ्यं धर्मपते स्थितः अस्याप्रतिहतं चक्रं पृथो आ मानसा वर्तते भगवान् अर्को यावत्तपति गोगणैः रञ्जयिष्यति यल्लोकमयम् आत्मविसेष्टितैः अतामुमाहुराजानं मनोरञ्जनैः प्रजाः दृढव्रतस्सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः शरण्यत्सर्वभूतानां मनोधो दीनवत्सलः भक्ति मातृभक्तिपरस्त्रीषु पत्न्यामर्धैवात्मनः प्रजासु पितृवत्स्निग्ध किं करो ब्रह्मवाधिनां देहिनामात्मवत्स्प्रष्ठ सुहृदा नन्दिवर्धनः मुक्तसङ्गप्रसङ्गोऽयं दण्डवाणी असाधुषु अयं तु साक्षाद्भगवांस्त्रयधीश गूटस्थ आत्मा कलयावतीर्णः यस्मिन्न विद्यारचितं निरर्थकं पश्यन्ति नानात्वमभिप्रतीतम् अयं भुवो मण्डलमोदयात्रे गोप्तैकवीरो नरधेवनाथः आस्थाय जैत्रं रथमात्त चाप पर्यस्यथे दक्षिणधो यथार्कः अस्मै नृपाला किल तत्र तत्र बलिं हरिष्यन्ति सलोकबालाः मंश्यन्त येषां आदिराजं चक्रायुधं दद्य सबद्धरन्त्यः अयं मही गां दु दुहेधिराज प्रजापतिर्वृत्तिकर यो लीलयाद्रीं स्वररासकोढ्य भिन्दन् स मां घामकरोद्यन्द्रः विस्पूर्जयन्ना जगवम् धनुः स्वयं यथा च सरस्वती प्रादुरभावि अत्र अहार्षीत्यस्य हयं पुरन्धर वर्तमाने एष पवने समेत्य सनत्कुमारं भगवन्तमेकम् आराध्य भक्त्या लभधामलं तत् ज्ञानं यथो ब्रह्मपरं विधन्ति तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः श्रोयत्यात्मा श्रुताघातः पराक्रमः दिशो विदिज्या प्रधिरुद्धचक्र स्वतेजसोत्पाटित लोकशल्यः सुरासुरेन्द्रैरुभगीयमान महानुभावो भविता भतिर्भुवः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे षोटसोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं सद्गुरु गोविन्द की जय